अथैकषष्ठितमः सर्गः ततो रामो महातेजा धनुरादाय वीर्यवान् किरीटिनम् महाकायं कुम्भकर्णम् ददर्शः तम् दृष्ट्वा राक्षसश्रेष्ठम् पर्वताकारदर्शनम् क्रममाणमिवाकाशम् पुरा नारायणम् यथा सतोयाम्बुदसङ्काशम् काञ्चनाङ्गदभूषणम् दृष्ट्वा पुनः प्रदुद्राववानराणाम् महाचमूः विद्रुताम् वाहिनीं दृष्ट्वा वर्धमानम् च राक्षसम् सविस्मितमिदम् रामो विभीषणमुवाचः कोऽसौ पर्वतसङ्काशः किरीटी हरिलोचनः लङ्कायाम् दृश्यते वीरः विद्युदिवतो यदः पृथिव्याङ्केतुभूतोऽसौ महानेकोऽत्र दृश्यते यम् दृष्ट्वा वानराः सर्वे विद्रवन्ते ततस्ततः आचक्षसु महान् कोऽसौ रक्षो वा विधम् भूतम् दृष्टपूर्वम् कदाचन सम्पृष्टो राजपुत्रेण रामेणाक्लिष्टकर्मणा विभीषणो महाप्राज्ञः काकुत्स्थमिदमब्रवीत् येन वैवस्वतो युद्धे वासवश्च पराजितः सैष विश्ववसः पुत्रः कुम्भकर्णः प्रतापवान् अस्य प्रमाणसदृशो राक्षसोऽन्यो न विद्यते एतेन देवायुधि दानवाश्च यक्षा भुजङ्गाः पिशिताशनाश्च गन्धर्वविद्याधर किन्नराश्च सहस्रशो राघव महाबलम् हन्तुम् न शेकोऽस्त्रिदशाः कालोऽयमिति मोहिताः प्रकृत्या ह्येष तेजस्वी कुम्भकर्णो महाबलः अन्येषाम् राक्षसेन्द्राणाम् वरदानकृतम् बलम् बालेन जातमात्रेण क्षुधार्तेन महात्मना भक्षितानि सहस्राणि प्रजानाम् सुबहून्यपि तेषु सम्भक्ष्यमाणेषु प्रजाभयनिपीडिताः यान्त्यश्मशरणम् शक्रम् तमर्प्यर्थम् न्यवेदयन् सकुम्भकर्णम् कुपितो महेम् द्रोजघानवज्रेण शितेन वज्री सशक्रवज्राभिहतो महात्मा चालकोपाच्च भृशम् ननाद तस्य नानद्यमानस्य कुम्भकर्णस्य रक्षसः श्रुत्वा निनादम् वित्रस्ताः प्रजाभूयोऽपि तत्र तत क्रुद्धो महेन्द्र से कुंभकर्णो महाबल निष्कृ्यवता दघानोरसी वास्व कुंभकर्ण प्रहारा तो विज्ज्वालसवासविदुस्सह दवा ब्रह्मषिदान प्रजा सह शक्र स्वयं भुव कुंभकर्ण से दौरात्म शशंसुस्ते प्रजापते प्रजानाम् भक्षणम् चापि देवानाम् चापि धर्षणम् आश्रमध्वंसनम् चापि परस्त्रीहरणम् भृशम् एवम् प्रजा यदि त्वेष भक्षयिष्यति नित्यशः अचिरेणैव कालेन शून्यो लोको भविष्यति वासवस्य वचः श्रुत्वा सर्वलोकपितामहः रक्षाम् स्यावाहयामास कुम्भकर्णम् ददर्शः कुम्भकर्णम् समीक्ष्यैव तत्रास प्रजापतिः कुम्भकर्णमथाश्वस्तः स्वयम् भूरिदमब्रवीत् ध्रुवम् लोकविनाशाय पौलस्त्येनासि निर्मितः तस्मात्त्वमद्य प्रभृतिमृतकल्पः शयिष्यसे ब्रह्मशापाभिभूतोऽथ निपपाताग्रतः प्रभोः ततः परमसम्भ्रान्तो रावणो प्रबद्धः काञ्चनो वृक्षः फलकाले निकृत्यते नप्तारम् स्वकन्याय्यम् शप्तुमेवम् प्रजापते न मिथ्यावचनश्च त्वम् स्वप्स्यत्येव न संशयः कालस्त्वक्रियतामस्य शयने जागरे तथा रावणस्य वचः श्रुत्वा स्वयम्भूरिदमब्रवीत् शयिता ह्येष जागरिष्यति एकेनाह्नात्वसौ वीरश्चरन् भूमिम् बुभुक्षितः व्यात्तास्यो भक्षये लोकान् संवृद्ध इव पावकः सोऽसौ व्यसनमापन्नः निर्गतो वीर शिबिराद्भीमविक्रमः कुम्भकर्णम् समीक्ष्यैव हरयोद्यप्रदुद्रुवुः कथमेनम् रणे क्रुद्धम् वारयिष्यन्ति वानराः उच्यन्ताम् वानराः सर्वे यन्त्रमेतत्समुच्छ्रितम् इति विज्ञाय हरयो भविष्यन्तीह निर्भयाः विभीषणवचः श्रुत्वा हेतुमत्सुमुखोद्गतम् उवाच राघवो तदा गच्छ सैन्यानि सर्वाणि व्यूह्य तिष्ठस्व पावके द्वाराण्यादाय लङ्कायाश्चर्याश्चास्याथ सङ्क्रमान् शैलशृङ्गाणि वृक्षांश्च शिलाश्चाप्युपसंहरन् भवन्तः सायुधाः सर्वे वानराः शैलपाणयः राघवेण समादिष्टो नीलो हरिचमोपतिः शशास बाणराणीकम् यथावत्कपिकुञ्जरः ततो गवाक्षः शरभो हनूमानम् गदस्तथा शैलशृङ्गाणि शैलाभा गृहीत्वा द्वारमभ्ययुः रामवाक्यमुपश्रुत्य हरयोजितकाशिनः पादपैरर्दयम् वीरा वाणराः परवाहिनी ततो हरीणाम् तदनीकमुग्रम् रराजशैलोद्यतवृक्षहस्तम् गिरे समी यथ महन्महांोधर जाल मुग्रशे श्रीमद्राणे वाक आदि काव्ये युद्ध कांडे एक सर्ग